श्रीमद्भागवत्महापुराणं दशमस्कन्ध अथाष्ठषष्टितमोऽध्यायः कौरवोपर्वलरामजी का कोप और साम्ब काविवाह शेषोकुवाच दुर्योधनसुतां राजन् लक्ष्मणां स्मृतिं जयः स्वयंवरस्थामहरत साम्बोजाम्बुवती सुतः कौरवाकुपितावोच दुर्विनीतोऽयमर्पकः करर्थीकृत्य न कन्यां न कामां महरद्बलात् बध्नीतेवं दुर्विनीतं किं करिष्यन्ति विष्णयः येस्मन्प्रसादोपचितां दत्तां नो भुजते महिं निगृहीतं सुतं श्रुत्वा यथे यद्येष्यन्ति ह विष्णयः भग्नदर्पाशमं यान्ति प्राणायु सुसंयताः तिथीकर्णशलो भूरि यज्ञकेतु सुयोधनः साम्ब मारेभिरे बद्धुं कुरुवृन्दानुमोदिताः दृष्ट्वानुधावत साम्बोधातराष्ट्रान्महारथ त्रगृह्यरुचिरं चापं तस्थौ सिंहैवैकलः तं चे दिग्धिक्षव क्रुद्धा तिष्ठतिष्ठेति तेस्ट ते भासिनः आसाद्य धन्विनो बाणैः कर्णाग्र्य समाकिरन् सोपविद्ध कुरु श्रेष्ठ कुरु भेजनन्दनः नामृश्चन्तदचिन्त्यार्भ सिंहशुद्रमिगैरिव विस्फुर्य रुचिरं चापं सर्वान् व्यव्याधसायकै कर्णादीन् षडरथां धीरां तावद्भिः युगपत् पृथगं चतुर्भिश्चतुरोवाहानैकैकेन च सारथिं रथिनश्च महे श्वासां तस्य तत्तेभ्य पूजयन् तं तु ते विरथं एकस्तु सारथिं जग्ने चिक्षेदान्यसराशनम् तम्बद्ध्वा विरुधीकृत्य कृच्छेण कुर्वो युधि कुमारं तस्य च स्वपुरं जैनो विशन् तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः कुरुन् प्रत्युद्यमं चक्रोरुग्रशेन प्रचोदिताः सान्त्वयित्वा चुतान् राम सन्नद्धान् विष्णुपुङ्गवान् नैच्छन् कुरुणां विष्णीणां कलिम् कलिमलापः जगाम् हासिनपुरं रथेनादित्यवर्चसा ब्राह्मणैः कुलुम् वृद्धेश्च वृत्तश्चन्द्र इव ग्रहैः गत्वा गजाह्वयम् रामो बाह्वो पौनमास्थितः दुद्धमम् प्रेषयामास धृतराष्ट्रम् बुभुस्थया सोऽविवन्द्याम्बिका पुत्रम् भीस्मम् द्रोणं च वाल्मीकम् दुर्योधनं च विधिवत् राममागतमब्रवीत् तेति प्रीता समाकर्ण्य प्राप्तं रामं सुहित्तमम् तमर्चयित्वाभिययो सर्वे मङ्गलपाळयः तं सङ्गम्यथा न्यायं गार्मध्यं च न वेदयन् तेषां येतत्प्रभावाज्ञः प्रणेमोऽशिरसाबलम् बन्धुन्कुशलिनः श्रुत्वा दृष्ट्वा शिवमनामयं परस्परमथो वभासे विक्लवं वचः उग्रसेन चितिशेषो यद्वा आज्ञापयत् प्रभु तदव्यग्रधिय श्रुत्वा कुरुध्वं अवध्नीताथन्तन्विश्चे बन्धूना बलो वीर्यचौर्य बलोन्नद्धम् आत्मशक्तिसमं वचः कुर्वो बलदेवस्य निशम्योचो प्रकोपिताः अहो महन् चित्रमिदम् कालगत्या दुरत्याम् आरुरुक्षतृपानन्दैः शिरोमुकुटसेवितम् एते यौनेन सम्बद्धा सह शय्यासनासनाः दृष्णेऽस्तुल्यतां नीता अस्मदत्तनिपाशनाः चामर्यजने शङ्खमान्नातपत्रं च पंपाण्डुरं क्रीटमासनं शय्यां भजन्त्यस्मदुपेक्षया अलं यजूनां नरदेवलाञ्छने दातु प्रतीपै ये स्मत्प्रसादोपचिता हि यादवाः आज्ञापयन्त्यद्य गतत्र पावत् कथमिन्द्रोऽपि कुरुभिर्भिष्मचोणार्जुनादिभिः अदत्तम् अवरुन्धीत शिंहग्रस्तमिवोरणः